एवमुक्ता तु राज्ञा तमाश्रमे उवाच हसति सुमधुराक्षरम् कण्वस्याहम् भगवतो दुष्यन्त दुहितामता तपस्विनो धृतिमतो धर्म ज्ञस्य महात्मनः तमेव प्रार्थय स्वार्थम् नायुक्तम् कर्तुमर्हसि दुष्यन्त ऊर्ध्वरेता महाभागे भगवान् लोक पूजितः धिवृत्ता वृत्ताद्धर्मोऽपि न चलेत् संशित व्रत कथम् त्वम् तस्य दुहिता सम्भूता वरवर्णिनी संशयो मे महानत्र तन्मे छेत्तुमिहार्हसि शकुन्तलोवाच यथायमागमो मह्यम् यथा चेदमभूत्पुरा शृणुराजन् यथा तत्त्वम् यथास्मि यथा दुहिता मुनेः अन्यथा सन्तमात्मानमन्यथा सत्सुभाषते स पापेनावृतो मूर्खस्तेन आत्मापहारकः ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत् ऊर्ध्वरेता यधासित्वं त्वम् कुतस्त्येयम् शकुन्तला पुत्री त्वत्तः कथम् जाता सत्यम् ब्रूहि काश्यप तस्मै प्रोवाच भगवान् यथा तत् शृणु पार्थिव कण्वौ वाच तप्यमानः किल पुरा विश्वामित्रो महत्तपः सुभृशम् तापयामास चक्रम् सुरगणेश्वरम् तपसा दीप्तवीर्योऽयम् स्थानान् गुणैरप्सरसाम् दिव्यैर्मेनके त्वम् विशिष्यसे श्रेयो मे कुरु वक्ष्यामि तत् शृणु विश्वामित्रो महातपाः तप्यमानस्तपो घोरम् मम कम्पयते मनः मेनके तव लोभयित्वा वरारोहे तपसस्तम् निवर्तय मेन कोवाच महातेजाः स भगवांस्तथैव च महातपाः कोपनश्च तथा ह्येनम् जानाति भगवानपि तेजसस्तपसश्चैव कोपस्य च महात्मनः त्वमप्युद्विजसे यस्य नोद्विजेयमहम् कथम् महाभागम् महा वसिष्ठम् यः पुत्रैरिष्टैर्व्ययोजयत् बलात् शौचार्थम् यो नदीम् चक्रे दुर्गमाम् बहुभिर्जलैः याम् ताम् पुण्यतमाम् लोके कौशिकीति विदुर्जना। बभार यत्रास्य पुरा काले दुर्गे महात्मनः दारान् मतंगो धर्मात्मा राजश्रिव्याधताम् गतः अतीत काले दुर्भिक्षे अभ्येत्य पुनराश्रमम् मुनिः नाम चक्रे तदा प्रभुः मतङ्गम् याजयाञ्चक्रे यत्र प्रीतमनाः स्वयम् त्वम् च सोमम् भयाद्यस्य गतः सुरेश्वर चकारान्यञ्च लोकम् वै क्रुद्धो नक्षत्र सम्पदा प्रतिश्रवण पूर्वाणि नक्षत्राणि चकारयः गुरुशापः तस्यापि ददौ ब्रह्मर्षि शापम् राजर्षिः कथम् मोक्ष्यति कौशिकः अवमत्य तदा अन्यानि च महातेजा यज्ञाङ्गान्यसृजत् निनाय च तदा स्वर्गम् त्रिशङ्कुम् समातपः एतानि कर्माणि तस्याहम् भृशमुद्विजे यथासौ न दहेत् क्रुद्धस्तथाक्षापय विभो तेजसा निर्दहेल्लोकान् कम्पयेत् धरणीम् पदा सङ्क्षिपेत् च महामेरुम् तूर्णमावर्तयेद् दिशः तादृशम् तपसा युक्तम् प्रदीप्तमिव पावकम् कथमस्मत् विधा नारी जितेन्द्रियमभिस्पृशेत् हुताशन मुखम् दीप्तम् सूर्य यमश्च सोमश्च महर्षयश्च साध्या विश्वे सर्वे एतेऽपि यस्योद्विजन्ते प्रभावात् तस्मात् कस्मान् मादृशी नोद्विजेत् त्वयैव मुक्ता च कथम् समीपम् ऋषेर्न गच्छेयमहम् सुरेन्द्र रक्षाम् तुमे चिन्तयदेव राज यथा त्वदर्थम् चरेयम् कामम् तुमे मारुतस्तत्र प्रकीडिताया विवृणोतु देव भवेच्च मे सहायभूतस्तु तव प्रसादात् वनाच्च वायुः सुरभिः तस्मिन् काले तम् ऋषिम् लोभयन्त्याः तथेक्ता विह चंस्त यौ साश्रमं श्री महाभारते आदिपर्वि सर्वि शकुंतलोपाख्यासप्ततीमोध्याय